मुद्गलपुराणम् खण्डम् फैव् लम्बोदरचरितम् अध्यायम् ट्वेल्व् शक्तिस्वरूपावतारवर्णनम् श्रीगणेशाय नमः शौनक उवाच लम्बोदरस्य माहात्म्यं त्वं जानासि सुखप्रदं मुखाम्भुजात्स्रवति च यस्यैवं शान्दिदामृदम् लम्बोदरस्य माहात्म्यं श्रुतं क्रोधहरं परं श्रोतुमिच्छात्तथा मेऽपि वर्धते भावसंयुधा अधोवदमहाभाग पुनर्विघ्नेश सत्कथां दक्षेण संश्रुतां पुण्यां मुद्गलाद्योगसागराद सुद उवाच मुनेशौ न कधन्यस्त्वं मखच्छृणुकथामृतं दक्षेण संश्रुतं पूर्णमुद्गलेन प्रभाषितं जम्बोदरकथां श्रुत्वा हृष्टरो मा प्रणम्यमुद्गलं विप्रमुवाच वचनं हितं दक्ष उवाच धन्यो योगी व्योसी मुद्गल संशय कदा वदसी कल्याण हर्षवर्धि श्रुवा शुर्त्वा श्रुवा न मे तृप्तिर्जाते मृदसनिभां अधुना वद योगींद्रपुनर्गणपे कथा लम्बोधरः कथं चायं शक्तिरूपो बभूवः तस्य मुख्यं चरित्रं मे वद सर्वार्थदायकं शक्त्या सम्राधितो देवो महिषस्य वधाय च कथं प्रकटरूपोऽसौ बभूवे तद्वदस्व शेषपुत्रः कथं साक्षात् बभूव गणनायकः मायाकरविनाशाय कथं मूषकगस्मृतः सावर्णिमनुना चैव कथमाराधितो भवद कथं शक्तिगणेशानोऽवतारः प्रबभूवः एतत्सर्वं सुविस्तीर्य वद मे करुणानिधे लम्बोदरावताराश्च प्रभो अन्यत्वं वद योगेन्द्रगणपत्यस्वरूपकं दीक्षायुक्तं विशेषेण कीदृशो गणपस्मृतः पूजा गणपतेश्चैव कीदृशी क्रियते जनैः मन्त्रकेन प्रकारेण गृह्यते गुरुवक्त्रतः विधियुक्तं गाणपत्यमार्गं मे वद विस्तराद येनाहं गाणपत्यश्च भविष्यामि सुदीक्षया गाणपत्यांश्च योगेन्द्रप्रभो ज्ञास्यामि दृष्टिगान् तदर्थं वद विप्रर्षे सर्वज्ञोऽसि न संशयः महाभाग्येन ते मे भवत् किल तव पादस्य वैचित्र्यं उवाच एवं महायोगी दक्षेण गणपप्रियः जगादत्तं प्रजानाथं पुनर्भावेन तोषितः मुद्गल उवाच धन्योऽसि कृतकृत्योऽसि दक्षत्वं नात्र संशयः येन प्रीतिर्गणपदावद्भुदा वद्भुदाते प्रजापदे प्रष्टुश्रोतुश्च वक्तुर्वै पावनीं सर्वदां परां गणेशं कथयिष्यामि भक्तिं दृष्ट्वा सुतोषितः आदव ब्रह्म च तदेव ब्रह्मणि स्थितं स्वेच्छा तत्र समुत्पन्ना माया तस्य प्रजायते स्वेच्छया द्विविधं जातं तदेवात्र न संशयः स्वतः परद उद्धानात् तत् सुयोगदम् सदा स्वसुखनिष्ठं वै नाना मायाविवर्जितं तद्वै परद उद्धानवाचकं कथितं मया मायाकेलकरं यच्च ब्रह्मस्वेच्छामयं प्रभो स्वत उद्धानकं प्रोक्तं पश्य वेदेषु मानद स्वत उत्थानकं ब्रह्मविकल्पं प्रचकारः विकल्पा तद्विधा बोधमेकानेकमयत्वतः एकं देहिस्वरूपं तद् बहुरूपं शरीरकं ताभ्यां चतुर्विधं सृष्टं जगदे ये ते ब्रह्मगण सर्वे क्रियासामर्थ्यहीनदः न शक्ता स्वस्वकार्येषु तपो युक्तास्ततो भवन् स्वरूपं च सर्वेषां भवेत्तु किल यादृशं तादृशायनमस्तुभ्यं मन्त्रं जे पुः परेश्वराः दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः नरकुञ्जररूपः स हृदि प्रभुः तम् दृष्ट्वा ज्ञानसम्पन्ना जाता ब्रह्मगणाः परम् तदस्ते ध्यानशीलाश्च पुपूजुर्हृदि संस्थितम् तेषाम् पुरः स्वयम् साक्षात्प्रकटो रूप धरो भूत्वा प्रसन्नो वरदायकः च दुर्बाहुधरा देवी सर्वावयवसंयुता स्तनभारभराक्रान्ता शुशुभे परमात्मिका तां दृष्ट्वा विस्मिता सर्वे पप्रच्छुस्वहिते रतां का त्वं कस्मादिखा यादा गणेशोऽहं महाभाग यं ध्यायद तपोन्विताः तपसा तुष्टभावेन वरदादा समागतः एवमुक्त्वा स्वयं तत्र शक्रिस्सा परमाद्भुदा गजवक्त्रयुतं रूपं दधे तेषां प्रपश्यताम् लम्बोदरं समालोक्य पुनर्विस्मितचेतसा स्तोत्रं तैर्वैः समारब्धं तावस्त्रीरूपमादधे दृष्ट्वा ब्रह्मगणां स्तान्ते विस्मिता गणप्रे रताः गणेशकृपया सर्वे ज्ञानयुक्ता बभूविरे ततस्तैश्चेष्टितं तस्य ज्ञादं भक्त्या प्रजापदे लम्बोदरस्वयं शक्तिरूपोऽयं नात्र संशयः या शक्तिः स गणेशानो गणेशशक्तिरुच्यते लम्बोदरात्मिका साक्षात् सर्वेषां जननी परा ततस्तां ते प्रणम्यादौ तुष्टुभुक् परसम्पुडैः प्रजानादब्रह्मगणाः सरोमाञ्जाविशेषतः ब्रह्मगणावूचुः नमस्ते शक्तिरूपायै सर्वेषां चक्रियात्मने सर्वसत्ताप्रदात्र्यै ते जगदंप नमोस्तुते। अपारा चर्वे सर्वदाई नमो नम भक्स्वाधीन रूपा महामा नमोस्तु सदास्वानंदय जगद्रह्मिके नाभेदराय सेघ्नेशा नमो नम अमेयाय नमस्तुभ्यं भक्त संरक्षण कर्य पात्र संहर्त्र गणेशा नमो नम समपन्नुदराजग्रमन संशय तदे सृष्टिप उदरम ते नमो नम अन्धे प्रलयकालज्ञे त्वया ग्रस्तं मुखे न च संहारकं तदेवाङ्गे मुखं ते वै नमो नमः मनोवाणीविहीना त्वं भक्तवत्सलभावतः स्वयं देहधरा जादा भाक्रेशायै नमो नमः किं स्तुमस्त्वां महामाये शक्तिनामधरे परे सर्वत्र शक्तभावेषु संस्थितायै नमो नमः वेदानां योगिनां चैव शक्रत्वं तत्त्वदीयकं त्वां स्तोतुं कः समर्थस्य दतस्ते प्रणमामहे यदि स्तुत्वा जगन्मादा ब्रह्मणां जननि प्रभो भक्त्रिभावेन तोषिता शक्रिरुवाच वरान् ब्रह्माणि वृणुत येषां ये, ये मनसीप्सिताः दास्यामि तपसा तुष्टा भक्त्या स्तोत्रेण सर्वपाः भवत्कृतं मदीयं यत्स्तोत्रं सर्वार्थदं भवेद् भक्तिप्रदं महाभागास्सर्वसामर्थ्यदायकं यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्र पाठतः भुक्तिमुक्तिप्रदं पूर्णं भविष्यदि न संशयः एवं शक्तेर्वच्रुत्वा तां ब्रह्माणि प्रणम्य जग्गुःप्रहृष्टभावेन तां परां सर्वमादरम् ब्रह्माण्यूचुः वरान् दास्यसि सर्वेसि तदा ते भक्रिमुत्तमां देहि शक्रेयया मोहो नश्यत्यत्र न किं कर्तव्यं महादेवी तत्र सामर्थ्यमुत्तमम् देह्यस्मभ्यस्ततो माधकरिष्यामश्च ते प्रियं तेषां वचनमाकर्ण्यसन्तुष्टात् सर्वदायिनी तथेदि तान्यु वाचा धान्तर्धानं सा तदो तदोवरबलेनैव सृष्ट्वा विश्वं चराचरम् स्वस्वभोगप्रदं भिन्नं तेषु क्रीडन्ति नित्यदा पालयन्ति च विश्वानि संहरन्ति प्रजापदे स्वमहिं निस्थितान्येव ब्रह्माण्यत्र न संशयः इति ते कथीधश्चायमवतारः पुरातनः लम्बोदरस्य भोदक्षशक्तिरूपः यशृणोदि नरो भक्त्या तस्मै भवेद ब्रह्म भूतकरश्चापि भोक्तिमुक्त्रिपदः परः सुद उवाच श्रुत्वा मुद्गलवाक्यं वैदक्षो घृष्टमना स्वयं जगादतं पुनर्विप्रशृणु संशयसंयुतः दक्ष उवाच त्वयामुद्गलमाहात्म्यं कथितं शक्रिसंभवं श्रुतं मया महाभाग तथापि नुदसंशयं ब्रह्माणि देहहीनानि देहिहीनानि योगिपस्तपादिकं तेषु नाथ कथं भवति तद्वद साश्रुनेत्रादिकं सर्वं स्तुति पूजादिकं प्रभो कथं तेषु भवेदे तद्भ्रान्तोह मधुना ह्यदः तस्य तद्वचनं श्रुत्वा हर्षयुक्तो महामुनिः जगदतं प्रजानादं सर्वज्ञानां शिरोमणिः मुद्गल उवाच ब्रह्माणि ब्रह्मभूतानि तेषु नास्ति महामदे देहदेहिमयो भाव यदि सत्यं श्रुतेर्मुखाद तथापि सर्वरूपाणि वदन्ते तानि निश्चितं देहविकारहीनानि देहरूपाणि सर्वतः देहि विकारहीनानि देहिरूपाणि सर्वतः ताभ्यां हीनानि भो वै संयुतानि च ब्रह्माणि सर्वशास्त्रेषु विचारय महामदे अतः सर्वं सदा तेषु सम्भवदि न संशयः अन्यच्च शृणुवाक्यं मे सर्वसंशयनाशनं ब्रह्मणि ब्रह्मभावश्च वक्तुं केन न शक्यते सर्वं भोगादिकं तेषां तप आदिमहामदे कथनीयं कथं शास्त्रैर् देहवद्वर्ण्यदेह्यतः शिष्यस्य बोधदानार्थं जानीहि त्वं प्रजापदे मा कुरुष्व वृथा तत्र संशयं वा विकारकं सुत उवाच मुद्गलस्य वच कृष्टो हृष्टो दक्षस्तमब्रवीद संशयो मे गदस्वामिं स्त्वदुक्तवचसाधुना लम्बोत्तरस्य माहात्म्यमधुना वदमानद सर्वज्ञस्त्वमदो निःसंशयं सर्वं करोषि वै ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शक्तिस्वरूपावतारवर्णनं नाम द्वादशोऽध्यायः ओ